मुद्गलपुराणं खण्डं फोर् गजाननचरितम् अध्यायं फोर्टिसिक्स् शक्तिमलमाहात्म्यवर्णनं श्रीगणेशाय नमः मुद्गल उवाच विचार्य देव पैस्सर्वै प्रेषयामास शङ्करः ब्रह्माणं ब्राह्मणैः सार्धं स्नेहार्थं सोपितं ययौ तं दृष्ट्वा गृह्यपुरुषो मुसलं सोऽपि दार्जुणम् आय्यौतं निरीक्ष्यैव पपालस पितामहः वयं सर्वे द्विजापुत्र शस्त्रहीना समागताः शृणु वाक्यं विचारज्ञ फलन्दश्चेतमब्रुवन् तथापि न बुबोधैव कुरुशस्तं विलोक्य ब्रह्मा जगाम शम्भुं तं वृत्तान्तमवदत्तदः ततो विष्णुयुधः शम्भुः क्रोधानलविलोचनः सङ्ग्रामाय ययौ तत्र मुसलं सोऽपि च ददे आगत्यैवन्यहन् शम्भुं हृदये यमसन्निभः शूलं पपाद पपादत्तस्ताश्चिवश्च व्याकुलो भवत ततस्तम् गदया विष्णोर्योधयामः सदारुणं ततस्त्रिशूलखादेन शिरश्चिच्छेदशङ्करः ममारपुरुषस्तत्र श्रुत्वा स पार्वती कोपयोक्ता च कोडीस्सा शक्तीस्ता नवनिर्ममे तया ज्ञप्ता महादेव्यः संहर्तुं सकलं जगद प्राप्ता आलोक्यदेवास्ते भयभीदा बभूविरे शङ्करेण द्विजास्तत्र प्रेषिता नारदादयः अन्तरिक्षचरा सर्वे प्रणेमु पार्वती तदः रक्ष रक्ष जगत् सर्वं जगदम्पतोदुद्भवं तुष्टुवुस्तामधोवाच मुनीन् क्रोधायुदा सदि पार्वत्युवाच मम पुत्रः किमर्थं तैर्हतत् सर्वैः सुरेश्वरैः सजीवं संह कुरुद्ध्वं चेन्न संशय तथे दिप्रति गे शुन शक्रतयिद सर्वा शिव शै सौ युद्ध मृत से बाल्स मस्तक जगृहुस्तत्र तं दृष्ट्वा शिरोहीनं सुदुःखितः शिवस्तदो गणान् प्राह यः पूर्वं त्वया तमान यदहत्वा वै तस्य मस्तकमत्र तदो गजासुरःप्राप्तः सहसा नारदेरिदः हन्तुं देवगणान् महाबल महाबलपराक्रमः ततश्चक्षोपिताः सर्वे पलायन्ददिशोदश शूलखादेन शम्भुस्तं मारयामास तत्क्षणाद तस्य मस्तकयोगेन पुरुषं ते दिवौकसह योजयित्वा प्रजानाथ सजीवं चक्रिरे नरम् सर्वे पदोद्यमा जादास्तदो ब्रह्मा समागतः जीवयामास तत्र सजीवो न तदो विष्णुः स्वयं तत्र जीवयामास विद्यया स जीवो न बभूवापि दुःखितोदि तदोभवद तदशिव तत्र जीवयुक्तं चकारतं स जीवं न ददर्शैव तदा तदो विघ्नेश्वरं सर्वे तुष्टुः कार्यसिद्धये अथर्वशिरसा दक्ष शङ्कराद्याः प्रार्थयामासुरत्यन्तं निर्विघ्नं कुरु विघ्नप अधुना विश्व मे वेदमकाले लयमेष्यदि गणेशस्मरणेन स्म बुद्धिप्राप्ता दिवौकसां वेदमन्त्रेण देवास्ते तारमावाहयन्ति च ओङ्कारस्तत्र मन्त्रेणाकर्षितः सहसा गतः शवं प्रविश्य सन्तस्तौ तदः सो भवदुद्भिदः ततो ज्ञानयुधादेवा जादाविघ्नविहीनकः तं दृष्ट्वा गजवक्त्रं वै प्रणवं प्रणवाकृतिं तुष्टु गुर्देवदेवेशम् नानास्तोत्रैः प्रजापदे पुपूजुस्तं च सर्वादौ पूज्यं चकृस्वमूलकं दक्ष उवाच साक्षादोङ्काररूपश्च गणेशोऽयं न संशयः स कथं मलजशक्तेर्दैत्यमस्तकधारकः ये नम्मे मे संशयं चेतु अर्हसि साम्प्रतं श्रुत्वा कथां महारम्यां ज्ञानयुक्तो भवाम्यहं मुद्गल उवाच सदि दक्षगृहेतादग्धा सा शैलजा भवद हिमाचले स्वयं शम्भुस्तताप तप उत्तमम् तत्रसा सा पार्वतीदेवी शुश्रूषायां प्रजापदे निरतां निरीक्ष्यैव शम्भुः सस्मारपूर्वकां ममात्मा नेयं दक्षगृहे गता अतोऽहं न वृणोम्येदां पुनः कदा तरकासुरभीतैर्देवैः कामप्रार्थितस्ततः स ययौ शङ्करस्थानं मोहितुं मदसंयुधः तं प्रज्वाल्य महे शानस्त्यक्त्वा हिमगिरिं ययौ अन्यत्र सा तदो देवी खेदयुक्ता बभूवः मनसि ज्ञानमार्गेण ज्ञात्वा शम्भुविचेष्टितं तपस्सात् संयुधा भूत्वा वनगा शिवमार्चयद गदे वर्षशदे शम्भुप्रसन्नो न बभूवः तदसा विघ्नराजं वर्षेणैकेन हे शिवबुद्धिप्रभेदं स चकार बुद्धिधारकः तदो दयायुधशम्भुस्तां ययौ द्विजरूपदृकशङ्करं निन्दयामास नानावाक्यै समीपगः तच्छ्रुत्वा कम्पिदा देवी बोधयामास शाम्भवैः चेष्टितैस्तम् तदसोपि पुनर्निन्दां चकारः स्थानम् त्यक्त्वा ततो देवी तम् जगामद्विजम् पुनः तिरस्कृत्य शिवस्तां स्वम् दर्शयामासरूपकम् ततः सातम् प्रणम्यैव तुष्टावविविधैस्तवैः गणेश मनसा ध्या्य तम सिदोभव तद प्रसन्न शंकर प्रदद वरम विस्मस्ता तपसाकर्षिता प्रभु शिव उवाच वृणोमी महादेवी वश्योम ते सदा न तपसा भक्तिभावेन न वियोगो भविष्यति धूलिधूसरितं तेऽङ्गं शिरोभूच्च जडान्विदं तदो मलस्तवाङ्गस्य पूज्यो भविष्यति इत्युक्त्वा शङ्करस्तत्रान्तर्धानं प्रचकारसः पार्वतीप्रेमसंयुक्ता स्वगृहं वै जगामः स्वभक्तस्य शिवस्यैव रक्षणार्थं वजो महद गौरीमलाङ्गसम्भूतो बभूवः गजाननः गणेशान्नपरकोऽपि सर्वपूज्यो महामदे गणेशवरदानेन सत्यवाक्याशिवादयः ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषद्दि श्रीमन्म उद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते शक्तिमलमाहात्म्यवर्णनं नाम षट्चत्वारिंशोऽध्यायः ॐ